ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं तर्टि ऐट् मन्द्रराजसाधनप्रकरकथनम् अगस्त्य उवाच श्रुतमेदन्महावृत्तमाविर्भावादिकं महद देव्याश्री देव्याश्रीनगरस्थितिः इदानीं श्रोतुमिच्छामि तस्या मन्त्रस्य साधनं तन्मन्त्राणां लक्षणं च सर्वमेदन्निवेदय हयग्रीव उवाच सर्वेभ्योऽपि पदार्थेभ्य शाब्दं वस्तुमहत्तरं सर्वेभ्योऽपि हि शब्देभ्यो वेदराशिर्महान्मुने सर्वेभ्योऽपि वेदेभ्यो वेदमन्त्रा महत्तराः सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः तेभ्योऽपि दौर्गमन्त्रास्तु महान्तो मुनिपुङ्गव तेभ्यो गानपदामन्त्रा मुने वीर्यमहत्तराः तेभ्योऽप्यर्कस्य मन्त्रास्तु तेभ्य शैवामहत्तराः तेभ्योऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सरस्वता वराः तेभ्योऽपि गिरिजामन्त्रास्तेभ्यश्चाम्नाय भेदजाः सर्वां नाय मनुभ्योऽपि वराः मनवो वराहा तेभ्यस्यामा मनुवरा विशिष्टा इल्वलान्तक तेभ्योऽपि ललितामन्त्रा दशभेदविभेदिताः ते श्रुत्वौ मनुराजौ तु वरिष्ठौ विन्ध्यमर्दन लोपामुद्रा कामराज यदि ख्यादिमुपागतौ ह्रादिस्तु कामराजस्तु कादिकाः हंसादेर्वाच्य दं कामराजो महेश्वरः स्मरादेर्वाच्य दां देवी श्री ितांबि का। हादिकास्त भेद वर्णव कामराजों सिद्धिद्रक्तिशालीना शिव शक्रिया कामेन क्षुत्र चु म हंसेन भृगुणा चैव कामेन शशिमौलिना चक्रेण भुवनेशेन चन्द्रेण च मनोभुवा क्षित्या हृल्लेखया चैव प्रोक्तो हमसादि हंसादिमन्त्रराट् कामादिमन्त्रराजस्तु स्मरयो निःश्रियो मुखे पञ्चत् श्रिकमहाविद्या ललिताम्भा प्रवाचिकां येयजन्दि यजन्ति महाभागास्तेषां सर्वत्र सिद्धये सद्गुरोस्तु मनुं प्राप्य त्रिपञ्चार्णपरिष्कृतं सम्यक् संसाधये तत्क्रमेण प्रवक्ष्यामि सावधानो मुने शृणु प्रादरुद्धाय शिरसि स्मृत्वा कमलमुज्ज्वलम् सहस्रपत्रशोभाढ्यं सकेशरसुकर्णिकं तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयं तदो बहिर्विनिर्गत्य क्रियाः सामोदेन विलेपितः काियागत्यज तैलोदेन विलेत सुनाशुद्धे नोष्ण वारीण आहो निसर्गदूध तस्मा स्ना तदभावे यदोदकम् परिधाय पडौ शुद्धे कौसुम्भौ वाधवारुणौ आचम्यप्रयदो विद्वान् ध्यायन् पराम्बिकाम् ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा पट्टवर्धनमेव वा अगस्त्यपत्राकारं वा धृत्वा बाले निजोचितम् अन्तर्हृदश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत् अश्वपत्राकारेण पात्रेण सकुशाक्षतं सपुष्पचन्दनं चार्ध्यं मार्दण्डाय समुक्षिपेत् तथार्घ्यभावदेवत्वा ललितायै त्रिरर्थ्यकं तर्पयित्वा यथाशक्तिमूलेन ललितेश्वरीं देवर्षि पितृवर्गांश्च तर्पयित्वा विधानतः दिवाकरमुपास्थाय देवीं च रविबिम्बगाम् मौनी मौनिविशुद्धहृदयः प्रविश्य मखमन्दिरं चारु कर्पूरकस्तूरीचन्दनादिविलेपितः भूषणार्भूषिताङ्गश्च चारु शृङ्गारवेशधृक् आमोदिकुसुमस्रग्रवतं सितकुन्तलः सङ्कल्पभूषणोवाध यथा विभवभूषणः पूजाखण्डे वक्ष्यमाणान् कृत्वा न्यासाननुक्रमाद मृद्वासने समासीनो ध्याये समासीनोध्यायेच्छ्रीनगरं महद नानावृक्ष महोद्यानमारभ्य ललितावधि ध्याये ध्यायेच्छ्रीनगरं दिव्यम् पूजा पूजाखण्डोक्तमार्गेम पूजां कृत्वा विलक्षणः अक्षमालां समादाय चन्द्रकस्तूरिवासिताम् उदङ्मुखप्राङ्खो वा जपेत्सिंहासनेश्वरीम् षट्त्रिंशल्लक्षसङ्ख्यां तु जपे द्विद्या प्रसीदति तद्दशांशस्तु होमस्यात्तद्दशांशं च तर्पणं तद्दशांशं ब्राह्मणानां भोजनं समुदीरितं एवं स सिद्धमन्द्रस्तु कुर्यात् काम्यजपं पुनः लक्षमात्रं जपित्वादु मनुष्यान्वशमानयेद् लक्षद्वितयजाप्येन नारी सर्वा वशन्नयेद् लक्षत्रितयजाप्येन सर्वान्वशयदेधृपान् चतुर्लक्षजपे जा जादेक्षुभ्यन्ति फणिकान्यकाः जपे जादे सर्वाः पादालयोषितः भूलोकसुन्दरीवर्गो वह्य षड्लक्षजापतः क्षुभ्यन्ति सप्तलक्षेण स्वर्गलोकमृगीदृशः देवयोनिभवाः जपाद्वशाः नवलक्षेण गीर्वाणा न किलान्वशमानयेद् लक्षैकादशजाप्येन ब्रह्मविष्णुमहेश्वरान् लक्षद्वादशजापेन सिद्धिरष्टौ वशनयेद् इन्द्रस्येन्द्रत्वमेधेन मन्त्रेण श्य भवत्पुरा विष्णोर्विष्णुत्वमेदेन शिवस्य शिवतामुना इन्द्रोश्चन्द्रत्वमेधेन भानोर्भास्करतामुना सर्वासां देवतानां च तास्ताः सिद्धय उज्ज्वलाः अनेन मन्त्रराजेन जाता इत्यवधारय एतन्मन्त्रस्य जापी तु सर्वपापविवर्जितः त्रैलोक्यसुन्दराकारो मन्मथस्याभिमोककृत सर्वाभिसिद्धिभिर्युग्रसर्वज्ञ भी सर्वपूजितः दर्शनादेवः सर्वशामन्तरालस्य पूरकः चस्पदिसमश्रिया वाजा श्रीपदि सानभः बले मरुत्समानस्या स्थिरत्वे हिमवानिव औन्नत्ये मेरुतुल्यस्याद्गाम्भीर्येण महार्णवः क्षणात्क्षोभकरो मूर्त्या ग्रामपल्ली पुरादिषु ईषद्भूभङ्गमात्रेण स्तंभको जृंभगस्त उच्चाटको मोकको दुष्टेतस क्रुद्ध प्रसीदधदी हठा तय दर्शनहर्षि अष्टशसु विद्यासुरूिमिग मंदकि पू पूरसमा तर भारती न तस्याविदिदं किञ्चित् सर्वशास्त्रेषु कुम्भज दर्शनानि च सर्वाणि कर्तुकण्डयितुं पटुः तत्त्वं जानादिनिखिलं सर्वज्ञत्वं च सदा दयार्द्रहृदयं तस्य सर्वेषु जन्तुषु तत्कोभाग्नेर्विषयतां गन्तुं नालं जगत्रयी तस्य दर्शनवेलायां श्लधन्यी वीनिबन्धनाः गलत संजयाः गलत्कुण्डलसञ्जयाः mm. कर्मवारिकणश्रेणी मुक्ता भूषितमूर्तयः अत्यन्तरागतरलव्यापार नयनाञ्जलाः श्रं समानकराम्भोज मणिकङ्कणपङ्कयः पूरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया ब्रवत्कन्दर्पसदर्नाक्कुलकाङ्कुरभूषणः अन्य प्राप्ता अव इवानंग मनस जन्म्यनावद्ज्वाला कदंबक तुद्यमाना किद्यमाना तोष्म शुच्यमानाश्रमजल् है शुच्यमानाश्च लज्जया कुलं जातीं च शीलं च लज्जां च परिवारकं परलोकभये तथा मुञ्जन्त्यो हृदि याचन्त्यो भवन्ति हरिणीदृश्यः अरण्ये पत्तने वापि देवालयमठेषु वा यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः अत्याहदो यद्धैवाम्भो बिन्दुर्भ्रमति पुष्करे तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम् विनीतानवनीतानां विद्रावणमहाफलं तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः चन्द्रार्कमण्डलद्वन्द्वकुचमण्डलशोभिनी त्रिलोके ललना तस्य दर्शनादनुरज्यति अन्यासां वराकीणां वक्तव्यं किं तपोधन पत्तनेषु च विधिषु चत्वरेषु वनेषु च तत्कीर्तिघोषणा पुण्या सदाद्युसद्रुमायदे तस्य दर्शनतः पापजालं नश्यति पापिनां तद्गुणा एव सर्वत्र कविपुङ्गवैः भिन्नैर्वर्णैरायुधैश्च भिन्नैर्वाहनभूषणैः ये ध्यायन्ति महादेवीं तास्ताः सिद्धिर्भञ्चदीये मनोरादिमखण्डस्तु कुन्देन्दुधवलद्वितिः मूलके इन्द्रगोपकसङ्काशोऽ द्वितीयो मनुकण्टकः नीबालनीयेहश्चक्रे आबालान्धज्वलच्छिकः अथ बालाधिपद्मस्तद्विदलाम्बुजकोटरे नीबालनीयस्तार्तीयखण्डो दुरितकण्टकः धवला रक्त मुक्ताध्येया सर्वसंपत्तिलाभे धवलाकृतिरि मलांगी सशीकरणकर्मण नीलाच दुश्यामी विचि नीला चूखीक कवित्वे कविशा स्फटिगोपलनिर्मला धनलाभे सुवर्णाभा चिन्ध्यधे ललिताम्बिका आमूलमाब्रह्मबिलं ज्वलन्माणिक्यदीपवद ये ध्यायन्ति महापुञ्जं ते स्युसंसिद्धसिद्धयः एवं बहुप्रकारेण ध्यानभेदेन कुम्भज निभालयन्त श्रीदेवीं भजन्ति महदीं श्रियं प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचनां यैस्तु तप्तं तपस्तीव्रं तैरेवात्मनिध्यायते तस्य नो पश्चिमं जन्मस्वयं यो वानशङ्करः न तेन लभ्यते विद्या ललिता परमेश्वरी वंशे तु यस्य कस्यापि भवेदेषमनुर्यदि तद्वंश्या सर्वहैवस्युर्मुक्तास्तृप्ता न संशयः गुप्ताद्गुप्तरैवैषा सर्वशास्त्रेषु निश्चिता वेदा समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम् परमात्मेयमेव स्यादियमेव परा गतिः इयमेव महत्तीर्थमियमेव महत्फलम् इमां गायन्ति मुनयोध्यायन्ति शनकादयः अर्चन्ति इमां सुरश्रेष्ठा ब्रह्माद्या पञ्चसिद्धिदा न प्राप्यते कुत्थकुटिलाशय दृद्धा तर्कृद्धा बिभ्रांद बुद्धि नष्टशीलचिष कुलभ्रष्ट निष्ठु दर्शनवेशंदक दांभी उद्धतुतालापैर्दीक दुर्लभा देता पूज्य मैं प्रोक्तभव पंडा सुरवधा प्रादुर्भूता चिदग्नि महात्रिपुरसुंदर्या सूर्तिस्तेजो विजृम्भिता कामाक्षीदि विधात्रादो प्रस्तुता ललिदेश्वरी ध्यायधः परया भक्त्या तां परां ललिताम्बिकां सदा शिवस्य मनसो लालनाल्लिताभिधा यद्य कृतवतीकृत्यं तत्सर्वं विनिवेदितं पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना खण्डान्तरे वदिष्यामि तद्विदासं महाद्भुतम् इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्य संवादे ललितोपाख्याने मन्त्रराज साधनप्रकारकथनमाष्टत्रिंशोऽध्यायः ॐ